ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं तर्टिसिक्स् चिन्तामणिगृहान्तरकथनं हयग्रीव उवाच चिन्तामणिगृहस्याग्निदिग्भागे कुन्दमानकं यो जनायामविस्तारं यो जनोच्चासचातकं तत्र ज्वलति चिद्वह्निसुधा धाराशतार्चितः परमैश्वर्यजनकः पावनो ललिताज्ञया अनिन्धनो महाज्वालसुधया तर्पिता कृतिः कङ्गोलीपल्लवच्छायस्तत्रज्वलति चिच्छिखी तत्र गोत्री महादेवी होता कामेश्वरः परः उभौ तौ नित्य होतारौ सकलं जगत् अनुत्तरपराधीना ललितासम्प्रवर्तिता ललिता चोदितकामशङ्करेण प्रवर्तितः चिन्तामणि गृहेन्द्रस्य रक्षो भागेऽम्बुजाडवौ चक्रराजरथश्रेष्ठस्तिष्ठत्युन्नतविग्रहः नवभिः पर्वभिर्युक्त सर्वरत्नमया कृतिः स दुर्योजनविस्तारो दशयोजनमुन्नतः यथोत्तरे ह्रासयुक्तस्थूलधक् कूबरोज्ज्वलः चतुर्वेदमहाचक्रः पुरुषार्थमहाहयः तत्त्वैरुपचरद्भिश्च चा चामरैरभिमण्डितः पूर्वोक्तलक्षणैर्युक्तो मुक्ताच्छत्रेण शोभितः भण्डासुरमहायुद्धे कृदसाहसिकक्रियः वर्त रथमूर्धन्यश्रीदेवन पाठिता चिंतामणि गृहेंद्र से वायु भागेबुजाटवेयचक्ररथेन्द्रस्तु मंद्रिणाषदी चिंतामणि गृहेंद्र सेद्रभागेम्बुजाटव वल्लभो दण्डनाथाय किरिचक्रे महारथः ये सर्वक्षेत्रश्री सर्वक्षेत्रश्रीपुरपङ्क्तिषु समानमेव विज्ञेयमङ्गस्था देवता यथा आनलं कुण्डमाग्नेये यत्तिष्ठति सदा ज्वलद तप्तमेदत्तु गायत्री तप्तं स्यादभयङ्करं खृणिसूर्यस्तु तत्पश्चादोङ्गारस्य च मन्दिरं देवी तुरीयगायत्री चक्षुष्मत्यपितापस अथ गन्धर्वराजश्च परिषद्रुद्र एव भगवती तत् पश्चाद्भागदस्थिताः चिन्तामणिगृहेन्द्रस्य रक्षोभागं समाश्रितः नामत्रयपहामन्द्रवाच्योऽस्ति भगवान् हरिः महागणपतिस्तस्योत्तरसंश्रितकेतनः पञ्चाक्षरी मन्द्रवाच्यस्तस्य शिवः अथ मृत्युञ्जयेशश्च वाच्यार्त्र्यक्षरमात्रतः सरस्वती धारणाख्याह्यस्य चोत्तरवासिनी अकारादिक्षकारान्तवर्णमूर्तेस्तु मन्दिरं मातृकाया उत्तरतस्तस्यां विन्ध्यनिषूदन उत्तरे संपदेसि वै कालर्षणी तथा श्री देव्या श्रीमहाशंभुनाथ दीपाज विशद जोत्नामलग्रह उत्तरोस्त दवादीरापूर्णा च हयारूढा तथैव च श्रीपादुका चतस्रस्तदुत्तरोत्तरमन्दिराः चिन्तामणि गृहेन्द्रस्य वायव्यवसुधादिदः महापद्मा डवौ त्वन्या देवता उन्मत्तभैरवी चैव स्वप्नवाराहिका परा तिरस्करणिकाम्बा च तथान्या पञ्चमी परा यथापूर्वं कृतगृहा यदा देव्यो महोदयाः श्रीपूर्तिश्च महादेवी श्रीमहापादुकापि च यथापूर्वम् द्वे देवतोत्तमे दें येदेव शा सागरे या विद्यास्ता महा प्रतिपाता महापद्मास्थले इधरश्म मणिकृप्ता गहाृहा उच्च्वजा उच्चला सोपास्तपोधन चिंतामणिगृहद्र से पूर्वद्वार सुद्रप दक्षिण पार्शभागे तो मंत्रीनाथ गृहम महद वाम भगे दंडनाथ रनद ब्रह्म विष्णु महेशानामर्ध्यस्थानम्यपूर्वतः भवनं दीपिताशेष शेषदिक्चक्रं रत्नरश्मिभिः समस्ता देवता एता ललिता भक्तिनिर्भराः ललिता मन्त्रजाप्याश्च श्रीदेवीं समुपासते पूर्वोक्तमर्ध्यस्थानं च पूर्वोक्तं चार्ध्यकल्पनं याम्यद्वारप्रभृतिषु सर्वेष्वपि समं स्मृतम् अथ चिन्तामणिगृहं वक्ष्ये शृणुमः मुने तच्छ्रीपट्टनमध्यस्थं यो जनद्वयविस्मृतं तस्य चिन्तामणिभी भित्तिकोश सुविस्तृता चिन्तामणिशिलाभिश्च छादिनीभिस्तथोपरि संवृता कूटरूपेण तत्र तत्र समुन्नता गृहभित्तिस्तथोन्नम्रा चतुर्योजनमानतः विंशतिर्योजनं तस्याश्चोन्नम्रा तदोर्ध्वं ततोर्ध्वं ह्राससंयुक्तं स्थौल्यत्रिमुकुडोज्ज्वला तानिचे चेच्छाक्रियाज्ञानरूपाणि मुकुटान्यऋषे सदा दे दीप्यमानानि चिन्तामणिमयान्यपि चिन्तामणिगृहे सर्वं चिन्तामणिमयं स्मृतम् यस्य द्वाराणि चत्वारि क्रोशार्थायामभाञ्चि च क्रोशार्थार्थं च विस्तारो द्वाराणां कथितो मुने द्वारेषु सर्वेषु पुनश्चिन्ता मणिगृसान्दरे पिहिता ललिता देव्या मुधर्लोकितसिन्धुवद तरुणार्कसहस्राभाचन्द्रवच्चितलाह्यपि मुहुःप्रवाहरूपेण प्रसरन्ती महामुने पूर्वाम्नायमयं चैव पूर्वद्वारं प्रकीर्तितं दक्षिणद्वारदेशस्तु दक्षिणाम्नाय लक्षणः पश्चिमद्वारदेशस्तु पश्चिमाम्नाय लक्षणः उत्तरद्वारदेशस्यादुत्तराम्नाय लक्षणः गृहराजस्यान्तराले भित्तौ खचितदण्डकाः रत्नप्रदीपाभास्वन्दकोट्यर्क सदृशत्विषः परितस्तत्र वर्धन्ते भासयन्तो गृहान्तरं चिन्तामणि गृहस्यास्य मध्यस्थाने महीयसि अत्युच्चैर्वेदिकाभागे बिन्दुचक्रं महान्तरं चिन्तारत्न गृहोत्तुङ्गिन्तेर्बिन्दोश्च मध्यभूः भित्तिक्रोशं परित्यज्य क्रोशत्रयमुदाहृतम् तत्र क्रोशत्रयस्थानेक्ष्यणिमाध्यात्मरोचिषा क्रोशत्रयं समस्तं तद्धस्तसङ्ख्याप्रकारतः चतुर्विंशतिसाहस्रहस्था संमिदमुच्यते बिन्दुपीडेशपर्यन्तम् चतुर्दशविभेदः अन्तरे भेदिते जाते हस्तसंख्या मयोच्यते पद्माडवीस्थला चिन्तामणिवेश्मान्तरं मुने हस्तविंशतिरुन्नम्रं तत्र समन्वितः अणिमान्तरविस्तारश्चतुर्नल्वसमन्वितः चतुःसदीनल्ल्वकेष्कुर्हस्त उदीर्यते तत्रान्तरेणिमाद्यास्तु पूर्वादिकृतमन्दिराः अणिमा महिमा चैव लखिमा गरिमा तथा ईषित्वं च वसित्वं च प्राकाम्यं मुक्तिरेव च इच्छा प्राप्तिसमेंदा सिद्ध उत्तमा रस सिद्धिमोक्षिर्बल सिद्धिस्तगसीय सिद्धिचन सिद्धि वाक्सीर्लोक सिद्धिस्हसीरन येद अष्ट सिद्धस्त योगी योगिसम्मताः तत्रान्तरेदुपरि दुपरिदस्यवते परमेश्वरीं कोडिशसिद्धयस्तस्मिन्नणिमाद्यन्तरे मुने नवलावण्यसम्पूर्णा स्मयमानमुखाम्बुजाः ज्वलचिन्तामणिकराः मदा षोडशवर्षिकाः अत्युदारप्रकृतयः खेलन्ति मदविह्वलाः तस्यानि माध्यन्तरस्योपरिष्ठात् सुमनोहरं हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविष्टरं चतुर्दिक्षु च सोपानपङ्क्तिभिः ब्रमाद्यंबरण्य सै ती स्ु ब्राह्मी चैव कौमारी वैष्णवी तथा चैव चहेन्द्री चामुंडाप्यथ सप्तमी महालक्ष्मी दो महालक्ष्मीरष्टमी त्रैथाकमरा नानाविधायुधाढ्याश्च नानाशक्तिपरिच्छदाः पूर्वादिदिशमारभ्य प्रा दक्षिण्यकृतालयाः अध ब्राह्यन्तरा तस्योपरिष्टात् कुम्भसम्भव हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् मुद्रान्तरमिति त्रैथं तत्र मुद्राकृतालयाः सङ्क्षोभद्रावणाकर्षवह्योन्मादमहाङ्कुशाः केचरीबीजयोऽन्याख्या त्रिखण्डादशमी पुनः पूर्वादिदिशमारभ्य मुद्रा येताः प्रतिष्ठिताः अत्यन्त सुन्दराकारा नवयौवनविह्वलाः कान्तिभिः कमनीयाभिः पूरयन्त्यो गृहान्धरं सेवन्दे मुनिशर्दूलिता परमेश्वरीम् अन्धरं त्रयमे दत्तु चक्रं त्रैलोक्यमोहनं ये तस्मिञ्चक्रयो यासु ता उक्ता प्रकटाभिधाः एतसां समधिष्ठा त्री त्रिपुराचक्रनायिका तच्चक्रपालनकरी मुद्रासङ्क्षोभणात्मिका अथ मुद्रान्तरस्योर्ध्वं प्रोक्ता नित्याकलान्तरम् अस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् पर्वतश्चैव सोपानमुत्तरोत्तरमिष्यते नित्या कलान्तरे तस्मिन् कामाकर्षणिकासुखाः परिधकृतसंस्थाना षोडशेन्दुकलात्मिकाः तासां नामानि मत्तस्त्वमवधारय कुम्भज कामाकर्षणिका नित्या बुद्ध्याकर्षणिका परा कला चित्ताकर्षणिका नित्या कला स्मृत्याकर्षणिका नाकर्षण काला बीजाकर्षण का नि चाताकर्षण का कला अमृताकर्षणी चा शरीरकर्षणी कलास्तु गुप्तुरेशी चक्रिणी सर्वाशा पुरीकाख्या चक्राधिष्टान द ये दच्चक्रे पालिकादुमुद्राद्राविणिकाभिता नित्या कलान्तरा दूर्ध्वं धिष्ण्यमत्यन्तसुन्दरं हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविष्टरं प्राग्वसोपानसंयुक्तं सर्वसंक्षोभणाभितं तत्राष्टौ शक्तयस्तीव्रा मदारुणविलोचनाः नवतारुण्यमच्चाश्च सेवन्ते परमेश्वरीं कुसुमामे मदना मदनातुरा रेखा वेगिन्यशृङ्गा च मालिन्यष्टौ च शक्तयः कोडिशस्तत्परिवारशक्तयो सर्वसंक्षोभमिदं चक्रं तदधिदेवता सुन्दरी नाम विज्ञेया नाम्ना गुप्तरापि सा तच्चक्रपालनकरीमुद्राकर्षणिका स्मृता अनङ्गशक्त्यन्तरस्योपरिष्टात् कुम्भसम्भव अस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविष्टरम् संक्षोभिण्याद्यन्तरं स्यात् सर्वसौभाग्यदायकं सर्वसंक्षोभिणी मुख्यास्तत्र शक्रय उद्धताः चतुर्दशवसन्त्येव तासां नामानि मच्छृणो सर्वसङ्क्षोभिणी शक्रिसर्वविद्राविणी तथा सर्वाकर्षणिका शाक्रिस्सर्वाह्लादनिका तथा सर्वसम्मोहिनी चक्रिस्सर्वस्तम्भनचक्रिका सर्वदृम्भिणिका शक्तिस्तथा सर्ववशङ्करी सर्वरञ्जनशक्तिश्च सर्वोन्मादनी चक्रिका सर्वार्थसाधिका शक्तिस्सर्वसम्पत्तिपूरिणी सर्वमन्त्रमयी शक्तिस्सर्वद्वन्द्वक्षयंकरी एताश्च मुद्राश्च सर्ववस्याख्यास्तक्रे कोडिशक्तयस्तत्र तासां किङ्कर्य उद्धृताः संक्षोभिण्याद्यन्तरस्योपरिष्टात् कुम्भसम्भव हस्तविंशतिरुन्नम्रं च तु मन्दिरम् विष्ट्यमुच्यते सर्वसिद्धिप्रदा सर्वसम्वत्प्रदा तथा सर्वप्रियङ्गरी देवी सर्वमङ्गलकारिणी सर्वकामप्रदा देवी सर्वदुःखविमोचनी सर्वमृत्युप्रशमिनी सर्वविघ्ननिवारिणि सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी येदा देव्यकलोकीर्ना योगिन्यो नामदस्मृताः दस्मृताः चक्रिणी श्रीश्च विज्ञेया चक्रं सर्वार्थसाधकं सार्वोन्मादनमुद्राश्च चक्रस्य परिपालिकाः सर्वसिद्ध्याद्यन्तरस्योपरिष्टात् कुम्भसम्भव अस्तविंशतिरुन्नम्रं चतुर्नल्यप्रविस्तरं सर्वज्ञाद्यन्तरं नामना, सर्वरक्षाकरं स्मृतं चक्रमखतरं दिव्यं सर्वज्ञाद्याः प्रकीर्तिताः सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदायिनी सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी सर्वाधारस्वरूपा च सर्वपापहरी तथा सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी सर्वेप्सितप्रदा चैता निर्गर्वा योगिनीश्वराः मलिनी चक्रिणी प्रोक्ता मुद्रा सर्वहांगुशा ये चिंता मणिगृे सर्वजाद्यवध्रणी काचि प्रोक्त्या मुने शृणु श्री ब्रह्मांडमहापुराणे उत्तरभागे अयग्रीवागस्त्यसंवादे ललितोपाख्याने चिन्तामणि गृहान्तरकधनं नाम षट्त्रिंशोऽध्यायः ओ